नमस्सर्वेभ्यः अस्माकं योगनस्य जीवनम् इति वर्गे भवतां सर्वेषां स्वागतम् अद्य किञ्चित् अत्र अस्माकं ये प्रसिद्धशब्दाः सन्ति रामः कृष्णः इति तस्य विषये किञ्चित् वक्तुम् इच्छामि रामः इति शब्दस्य को अर्थः इति अद्य वदामि अपि कृष्णः इति शब्दस्य को अर्थः इति अपि वदामि तर्हि इदानीं कृष्णः इति शब्दः वयं सर्वे जानीमः कृष्णः यः तारकब्रह्मा आसीत् जगतः उदाहरणार्थं सः पाञ्चभौतिकशरीरं स्वीकृतवान् तर्हि कृष्णः इति शब्दस्य त्रिविधव्याख्यानं कर्तुं शक्यते ऐतिहासिकरूपेण हा जैविकरूपेण अपि च दार्शनिकरीत्या हिस्टारिकल् बयोलोजिकल् अण्ड् फिलासफिकल् त्रिविधः अर्थः गृहीतुं शक्यते इदानीं दार्शनिकरीत्या कृष्णः इति शब्दस्य कोऽर्थः इति चेत् कृष्णः इत्युक्ते तादृश uh, सत्ता यः सर्वा सर्व uh, आकर्षितं करोति इत्युक्ते mm. अट्राक्टिव् फेकल्टि इति तादृशसत्ता यः सर्वान् तं प्रति आकर्षयति इत्युक्ते अस्मिन् जगति सर्वे जीवाः ज्ञात्वा वा अज्ञात्वा वा अत्र अस्मिन् जगति धूलिः वा भवतु जीवः वा भवतु यत्किमपि भवतु सर्वेषु गतिः वर्तते सर्वे ज्ञात्वा वा अज्ञात्वा वा कृष्णं प्रति एव आकर्षिताः भवन्ति यतोहि सः एव केन्द्रबिन्दुः अस्ति अस्य जगतः केन्द्रबिन्दुः कः इति चेत् कृष्णः एव केन्द्रबिन्दुः अस्ति इति एकः एकं व्याख्यानम् अपि च भिन्नरीत्या व्याख्यानं कुर्मः चेत् सर्वेषु यः अहम् इति भावः अस्ति सर्वेषु जीवेषु इत्युक्ते जीवेषु इत्युक्ते मनुष्येषु यः अहम् अस्मि इति भावः अस्ति सः भावः किमर्थम् अस्ति इत्युक्ते कस्मात् सः भावः अस्ति इति चेत् कृष्णात् अयं भावः अस्ति अहम् अस्मि इति भावः कस्मात् अस्ति कृष्णात् अस्ति एवं जैविकरूपेण कृष्णः इति शब्दस्य को इति चेत् यः जीवेशु, नियंत्रकहस्ति, नियंत्रकहस्ति, एते तु जीवेशुंक अस्ट अस्त सृष्ण ऐतिहासिकेण तो वीमस कृष्ण एक धर्मस्य ध पाल नैतिकी धर्म पाल करीम संस्कृतभाषायां वयं जानीमः प्रत्येकं शब्दस्य अर्थः भवति प्रत्येकं शब्दः अर्थवान् भवति तर्हि इदानीं कृष्णस्य व्याख्यानं दृष्टम् इदानीं रामः रामः इति शब्दस्य को अर्थः इत्युक्ते परमपुरुषस्य एव नाम नाम रामः रामः इति शब्दः तु प्रसिद्धः अस्ति रामः इति शब्दस्यापि त्रिविधव्याख्यानं कर्तुं शक्यते परन्तु अन्ततो गत्वा सर्वेषां मुख्यता समाना भवति वयं जानीमः योगिनः किमिच्छन्ति योगिनः आनन्दमिच्छन्ति तर्हि एकः अर्थः रामः इति शब्दस्य रमन्ते योगिनः यस्मिन् रामः इति तादृशसत्ता यस्मात् योगिनः आनन्दं प्राप्नुवन्ति रमः इति तादृशसत्ता यस्मात् योगिनः आनन्दं प्राप्नुवन्ति योगिनः जगति यानि वस्तूनि सन्ति तेभ्यः तु आनन्दं न प्राप्नुवन्ति ते तु या या सत्ता अनन्ता वर्तते अनन्त अनादिसत्ता वर्तते तस्मात् एव ते आनन्दं प्राप्नुवन्ति सुखम् अनन्तम् आनन्दं ते तु आ सुखं न इच्छन्ति ते तु आनन्दम् इच्छन्ति आनन्दमिच्छन्ति सुखं न इच्छन्ति तर्हि रामः इत्युक्ते रमन्ते योगिनः यस्मिन् इत्युक्ते यस्मिन् योगिनः आनन्दं प्राप्नुवन्ति इति सः रामः इति एकः अर्थः अन्यः अर्थः अस्ति रति रतिः राति रातीमहीधरः राती रामः इत्युक्ते रातीमहीधरः रामः इत्युक्ते अत्र अस्मिन् विश्वब्रह्माण्डे यः प्रकाशमानः अत्यन्तं प्रकाशमानः यः वर्तते अत्यन्तम् उज्ज्वलमानः उज्ज्वलमानं वस्तु यद्वर्तते तदेव रामः वयम् अस्मिन् जगति व वाय यदा वयं प्रकाशः वयं प्रकाशः कुतः प्रकाशं वयं प्राप्नुमः इति चेत् वयं चिन्तयामः सूर्यात् प्रकाशः सूर्यः एव प्रकाशस्य स्रोतः अस्ति इति वयं चिन्तयामः परन्तु सूर्यस्य कृते कुतः प्रकाशः आयाति सूर्यस्य प्रकाशः तत्र गृहमण्डलात् आयाति इति वयं वदामः चेत् तर्हि गृहमण्डले कुतः कु कुतः प्रकाशः प्राप्यते इति चेत् अन्ततो गत्वा प्रकाशस्य मूलम् अस्ति परमपुरुषस्य चक्रनाभिः परमपुरुषः एव केन्द्रः अस्ति प्रकाशस्य तहि ऊर्जायाम ऊर्जाया प्रकाश से स्रोता परमुष सूर्य सूर्य वो अन्या सत्ता अभी परमपुरुषाव प्रकाश प्राप्व तरी अस्म जगती यहा अस्मिन् विश्वब्रह्माण्डे या प्रकाशमानः अस्ति अत्यन्तं प्रकाशमानः अस्ति यः ब्रह्मचक्रस्य केन्द्रबिन्दुः अस्ति सः रामः रामः नाम ब्रह्मचक्रस्य चक्रनाभि चक्रनाभिः सः रामः इति एकः अर्थः अनन्तरं तृतीयः अर्थः इति चेत् अत्र रा अपि च मा इति अक्षरद्वयमस्ति रा मा तर्हि रा मा तर्हि रामायणे रावणः इति वयं जानीमः रावणः रावणः यः असुरः आसीत् तर्हि तस्य दशमुखाः आसन् इति वयं जानीमः तर्हि अत्र रावणः इत्युक्ते अस्माकं मानवस्य मनः अस्माकं मनः यः यः यद् मनः यद् मनः दशसु दिक्सु गच्छति गत्वा अत्र अस्मिन् जगति यानि यानि वस्तूनि सन्ति तं प्राप्तुं इच्छति तानि वस्तूनि प्राप्तुं यद् मनः इच्छति तदेव रावणः रावणः तत्तु तादृशमनः केन्द्रबिन्दुतः दूरं गच्छति केन्द्रबिन्दुतः दूरं गच्छति यः रावणः मनुष्येषु इत्युक्ते रावणः इत्युक्ते मनः यः यद्मनं यद्मनः अत्र जगति यानि वस्तूनि सन्ति तानि प्रति यद्मनः धावति तदेव रावणः रावणः तस्य मरणं रावणस्य मरणं कथं भवितुमर्हति तस्य विनाशः कथं भवितुम् अर्हति इति चेत् यदा तत्र आ, रामस्य शरणे वयं गच्छामः तर्हि तदानीमेव तस्य मरणं भवितुमर्हति तर्हि तत्र रा अपि च म इत्युक्ते रा इत्युक्ते रावणः म इत्युक्ते मरणं तर्हि रामः इत्युक्ते रावणस्य मरणं रामः तर्हि यः रामस्य शरणे आयाति तदानीं रावणस्य मरणं भवति रावणं रावणः इत्युक्ते अस्माकं मनः यः दशसु दिक्सु गच्छति बहिर्मुखी भवति बहिर्मुखी यद् मनः भवति तदेव रावणः रामः इत्युक्ते रावणस्य मरणं रावणस्य मरणम् एव रामः यदा वयं रामस्य शरणे गच्छामः तदानीं रावणस्य मरणं भवति तर्हि रामस्य रामः इति शब्दस्य वा भवतु कृष्णः इति शब्दस्य भवतु यः कोपि यादृशव्याख्यानं भवतु नाम परन्तु अन्ततो गत्वा तत्र तथ्यं किम् इति चेत् कृष्णः वा रामः वा परमपुरुषः यः अस्माकं जगतः केन्द्रबिन्दुः अस्ति सृष्टेः केन्द्रबिन्दुः अस्ति इति वयं स्मरामः तस्य शरणे वयं गच्छामः चेत् तर्हि संसारसागरात् मुक्तिः जायते इति अत्र उक्त्वा इदानीम् अस्माकं पाठं प्रति वयं गच्छामः ओके okay? ओ oh, किमर्थं श्री श्रीन् ना कर्तुं न एक एकक्षणम् क्षम्यतां तत्र कश्चन क्लेशः अस्ति अधुना मम स्क्रीन् दृश्यते खलु okay. तर्हि अस्तु तर्हि अत्र अस्माकं करपत्रमस्ति अयं संसारः कः इति विषयः अनुवर्तते अस्माभिः किं दृष्टमासीत् इति चेत् अत्र सृष्टिः वस्तुतः परमपुरुषस्य चित्ते एका कल्पना वर्तते तर्हि अत्र सृष्टिचक्रे कतम अत्र कल्पना कतम जायते कतम भवति इति चेत् तत्र आदौ द्वादशवादने परमपुरुषः वर्तते सगुणब्रह्म वर्तते तदनन्तरं तत्र प्रकृतेः यदा प्रभावः पुरुषस्य उपरि भवति तदानीं सृष्टिः जायते इति वयं जानीमः तत्र प्रकृतेः तमोगुणस्य प्रभावः यदा भवति पुरुषस्य उपरि तदानीं पुरुषः एव तत्र महत्तत्त्वरूपेण परिणमते तर्हि तत्तु एकवादने महत्तत्वम् आयाति प्रकृतेः सत्त्वगुणस्य प्रभावेन क्षम्यतां तमोगुणः इति न सत्त्वगुणस्य प्रभावेन महत्तत्वम् आयाति तदनन्तरं प्रकृतेः रजोगुणस्य प्रभावेन महत्तत्त्वस्य उपरि यदा प्रकृतेः रजोगुणस्य प्रभावः भवति तदानीम् अहं तत्त्वम् आयाति यः यः कार्यं करोति द डुअर् ऐ महत्तत्त्वम् इति तु अहम् अस्मि इति भावः ऐ फीलिङ्ग् अस्ति तदनन्तरं यदा तमोगुणस्य प्रभावः अहं तत्त्वे भवति तदानीं चित्तम् आयाति चित्तं तत्र दर्शनस्य तत्र चित्रपटलम् अस्ति द मूवी स्क्रीन् आफ् द मैण्ड् इति आहत्य भूममनः सिद्धः सिद्धमस्ति त्रिवादनपर्यन्तं भूममनः सिद्धमस्ति तदनन्तरं त्रिवादनात् षड्वादनपर्यन्तं तत्र पञ्चभूतानि निर्मितानि भवन्ति प्रथमतया आकाशात् यत् यदा तत्र तमोगुणस्य प्रभावः चित्तस्य उपरि अधिकः भवति अधिकः प्रभावः यदा भवति तदानीं पञ्चभूतानि निर्मितानि भवन्ति प्रथमतः चित्तात् आकाशः आयाति तदनन्तरम् आकाशात् वायुः वायोः अग्निः अग्नितः तत्र जलं जलात् पृथ्वी षड्वादने क्षितितत्त्वम् आयाति अपि च मया उक्तं यदा इत्युक्ते तत्र भूतेषु तत्र क्षितितत्त्वम् एव स्थूलतमं वर्तते तस्मात् अपि अधिकं स्थूलं किमपि नास्ति स्थूलतमं वर्तते इतोपि प्रकृतेः प्रभावः चित्ते न भवितुमर्हति अतः तत्र किं भवति इति चेत् यदा तत्र प्रकृतेः प्रभावः स्थितितत्त्वस्य उपरि इतोपि अधिकः यदा भवति तदानीं किं जायते इति चेत् तत्र स्थितितत्त्वात् तत्र जीवः बहिरागच्छति यदा अनुकूलं वातावरणं भवति तदानीं जीवः आयाति यदा अनुकूलवातावरणं नास्ति यदा तमोगुणस्य प्रभावः अधिकः भवति तदानीं जडस्फोटः भवति जडस्फोटः यदा भवति तदानीं तत्र तत्र तत्वस्य चूर्णी चूर्णीभवनं भवति तत्तु पुनः प्रत्येकं भूतं प्रति गच्छति यस्मात् आगतः तस् तस्मिन् गच्छति इति कृत्वा पञ्चभूतेषु तस्य यदा जडस्फोटः भवति पञ्चभूतेषु तस्य मेलनं भवति यदा अनुकूलवातावरणमस्ति तदानीं जीवः आयाति जीवः यदा आयाति तदानीं ततः अग्रे प्रथमतया यदा जीवः आयाति तदानीं तत्र जीवेषु अनुमनः अपि भवति द यूनिट् मैण्ड् अपि तत्र जीवेषु भवति तर्हि आदौ यः एककोषः जीवः वर्तते तत्र तु मनः विकासितं न वर्तते तर् प्रारम्भिकस्तरीयस्तरीयं मनः वर्तते तत्र तदानीं तत्र क्षितितत्वे एव क्षितितत्त्वस्य यदा विभागाः भवन्ति विभागाः भवन्ति तत्र यदा यथा अनुमनः अस्ति तथैव तत्र जीवात्मा अपि भवति जीवेषु यदा जीवः आयाति तत्र जीवात्मा अपि अस्ति अनुमनः अपि आयाति तर्हि तत्र आदौ प्रारम्भिकस्तरीयजीवाः तदनन्तरं क्रमेण विकासः यदा भवति तदानीं तत्र सस्यानि अनन्तरं इतोपि अन्ये पशवः इति एवं रीत्या क्रमेण जीवानां विकासः भवति षड्वादनात् आरभ्य दशवादनपर्यन्तं दश दशवादने यदा जीवानां क्रमेण विकासः भवति तदानीं दशवादने मनुष्याणाम् उद्भवः भवति तर्हि मनुष्याणाम् उद्भवः भवति मनुष्यः जीवात् कथं मनुष्यः भिन्नः इति चेत् मनुष्येषु अनन्तेषणा वर्तते इति वयं जानीमः ततः दशवादनात् द्वादशवादनपर्यन्तं कथं प्राप्तुं शक्नुमः इति चेत् तत्तु साधनाद्वारा योगनिश्च जीवनं द्वारा, द्वारा तत्र अग्रगतिः भवति दशवादनात् द्वादशवादनपर्यन्तं यदा तत्र जीवात्मनः परमात्मनः सह ऐक्यं जायते स योगः इति वयं जानीमः इति एतादृश एवम् एवं रीत्या सृष्टिः प्रचलति सृष्टिः सर्वदा अस्ति तस्य विनाशः इति नास्ति सृष्टेः विनाशः कदापि न भवति इत्युक्ते सृष्टेः अंशाः ये सदस्याः तेषाम् आदिः अस्ति अन्तः अस्ति इत्युक्ते तत्र ये सदस्याः अस्ति भूतानि वा भवतु जीवाः भवतु तेषाम् आदिः अस्ति अन्तः अपि अस्ति परन्तु सृष्टिः सर्वदा प्रचलति सर्वदा प्रचलति तस्य अन्तः कदापि न भवति तर्हि एतत् सर्वम् अस्माभिः दृष्टं यदा तत्र वयम् इत्युक्ते यदा अस्माकं कल्पना भवति तदा कथं भवति इति वयं जानीमः इत्युक्ते अत्र अत्र किमुक्तम् इति चेत् यद्यपि कश्चन पुरुषः रामः प्रयागे वसति तथापि तस्य कल्पनायां सः चिन्तनं करोति यत् सः चान्दनीचौक् नगरे वसति इति तदानीं तस्य चित्तस्य सम्पर्कः इन्द्रेण सह न चित्त चित्ते तु चान्दनीचौक् नगरस्य आकारं गृह्णाति यथा अस्माकं कल्पना प्रवर्तते तथैव सगुणब्रह्मणः अपि कल्पना प्रवर्तते तत्र सगुणब्रह्मणः अपि तत्र मनः मनसः त्रयः अंशाः सन्ति इति जानीमः तर्हि तत्र यथा तत्र सृष्टि सृष्टिचक्रे तत्र चित्ते चित्तम् एव क्रमेण स्थूली चित्तस्य एव क्रमेण स्थूलीभवनं भवति चित्तमेव क्रमेण तत्र भिन्नभिन्न अकारं गृह्णाति तर्हि तत्र स्थूलीकरणं जायते द्वादशवादनात् षड्वादनपर्यन्तं तदेव तत्र सञ्चरदारा इति वयं वदामः सञ्चरधारा इति वदामः यदा the movement from the subtle to the crude Purushah su, Sulahanasi Purushah Suksmaha Vartate Suksmaath sula, Sulam Prati Gamanam Tadeva Bhavati Dvadasya Vadhanath Shradvadhanapariyantam Tadanantram Prati Sanchar Dara Iti Tatra Shradvadhanath Arabya Dvadasya Vadhanapariyantam Prati Sanchar Dara Iti Vem Vadamaha Tatra Tu Sulath Suksmam Prati Gamanam Sulath Suksmam Prati Gamanam अत्र उक्तं तर्हि इयं सृष्टि या वर्तते सा तु चित्तस्य रूपमस्ति पर चित्तस्य एव रूपम, रूपम, अस्ति तत् कथम् इति चेत् चित्तस्य स्थूलीकरणेन स्थूलीकरणेन यदा तमोगुणस्य प्रभावः अधिकः भवति तदानीं स्थूलीकरणं जायते स्थूलीकरणेन तत्र चित्तम् एव पञ्चभूतरूपेण परिणमते चित्तमेव जीवरूपेण परिणमते इति एवं रीत्या तत्र क्रमः वर्तते इति अस्माभिः ज्ञातम् इदानीं ततः अग्रे आ, अग्रे वयं पश्यामः तर्हि अग्रिमपरिच्छेदमपि अस्माभिः पठितम् तर्हि अत्र किमुक्तम् इति चेत् तदेव इदानीं यदा यथा उक्तं तथा एव अत्र अग्रिमपरिच्छेदे अस्ति तत्र अपि च तत्र किमुक्तम् आसीत् इति चेत् तत्र इत्युक्ते पुरुषः सूक्ष्मः वर्तते तत् ततः यदा क्रमेण सृष्टिः जायते तदानीं पूर्वस्मात् अग्रिमम् इतोपि स्थूलं भवति इत्युक्ते तत्र प्रथमं महत्तत्वम् आयाति महत्तत्वस्य अपेक्षया अहं तत्त्वम् इतोपि स्थूलम् अहं तत्त्वस्य अपेक्षया चित्तम् इतोपि स्थूलं वर्तते महत्तत्वे एकः एव अंशः अस्ति महत्तत्त्वे अहमस्मि इति भावः एव अस्ति यदा अहं तत्वे वयं पश्यामः तत्र अहमस्मि इति भावः अपि अस्ति अहं करोमि इति भावः अपि अस्ति चित्तं ततः अपि इतोपि स्थूलं वर्तते यतोहि चित्तं बहिः यद्वस्तु अस्ति तस्य आकारं गृह्ण गृह्णाति बहिः यद्वस्तु अस्ति तत्तु बहु स्थूलं वर्तते पञ्चभूतानि बहिः पञ्चभूतानि सन्ति पञ्चभूतानि स्थूलानि तर्हि पञ्चभूतानाम् आकारं चित्तं गृह्णाति चेत् तदानीं चित्तं स्थूलं भवति अतः चित्तम् अहं तत्त्वस्य अपेक्षया इतोपि स्थूलतमं वर्तते इति एवं रीत्या तत्र क्रमेण सृष्टिचक्रं प्रवर्तते तत्र सूक्ष्मात् स्थूलपर्यन्तं फ्रम् दशवादनात् फ्रं द्वादश दश द्वादशवादनात् षड्वादनपर्यन्तम् एवं रीत्या तत्र सञ्चर्धार इति वयं वदामः तर्हि इदानीं ततः अग्रे वयं किञ्चित् गच्छामः तत्र सरला भगिनी पठति वा आं भगिनि नमस्कारः भगिनिभूमा मनसः विचारप्रक्षेपणम् इति पूर्वव्याख्यातम् आसीत् रजोगुणस्य विकृतिप्रकृतेः प्रभावः सगुणभ्रमण अहं तत्त्वे विचारतरङ्गसृजति अहं तत्त्वस्य उद्देश्य प्रतिरूपम् चित्तम् स्थूलजगतः रूपम् गृह्णाति चित्तम् स्वभावतया सूक्ष्मम् वर्तते किन्तु परन्तु तत् सृष्टिवत् स्थूलम् अभवत् स्थूलत्वम् प्राप्तुम् चित्तेन क्रमेण पञ्चतत्त्वानाम् अथवा प्रारम्भिकभूतानाम् रूपम् गृहीतव्यम् भवति अर्थात् व्योमतत्त्वम् वा आकाशम् आकाशीय मरुत वा वायवीय तेजस तत्व व अग्नि प्रकाशयुक्त जलतत्व व्रवा क्षतित घनीभूत पंचभूता पंचभूता स्थूलानी सी एभ्य पंचभ्य भूतेभ्य जगत निर्मित तंमात्र एकं सूक्ष्मरूपम् एकं सूक्ष्मरूपम् अस्ति यस्य सा, साहाय्येन इन्द्रियाणि एकं वस्तु प्राप्नुवन्ति इति वयं पूर्वं दृष्टवन्तः पञ्चतन्मात्राणि च सन्ति अर्थात् शब्दः स्पर्श रूपं रस गन्ध च सूक्ष्मक्षेत्रे वयं पश्यामः यत् बुद्धितत्वम् अहं तत्त्व अपेक्षया सूक्ष्मतरं यतः बुद्धि बुद्धितत्वे तु केवलम् अहम् अस्मि इति भावः वर्तते परन्तु बुद्धितत्वस्य तु तुलनायां मुद्रणदोषस्ति साधु तुलनायाम् अहं तुलनायाम तत्त्वस्य अहम् अस्मि अहं करोमि चेत् द्वौ भावौ तथैव स्थूलक्षेत्रे यस्मिन् वस्तूनि अधिक अधिकतन्मात्राणि सन्ति तत स्तुतरं भवति अन्यस्य अपेक्षया यस्मिन् न्यूनतराणि तन्मात्राणि भवन्ति तन्मात्राणां पूर्णाभा पूर्ण अभावः वस्तु सर्वथा सर्वथा अतिसूक्ष्मं सूक्ष्ममम् वा करोति एतेन एतत् अपि ज्ञायते यत् सूक्ष्मक्षेत्रे यत्र तन्मात्राणि सर्वथा अनुपस्थितानि भवन्ति तत्र वस्तूनां ज्ञानार्थं तन्मात्राणि साहाय्यं कर्तुं न शक्नुवन्ति सूक्ष्मक्षेत्रे वस्तूनि ज्ञातुं भावना अपेक्षिता भावना नाम लक्ष्यनिष्ठमनसः अन्तःप्रवाह यदा स्थूलक्षेत्रे वस्तूनि ज्ञातव्यानि तदा तन्मात्राणाम् अत्यन्तम् आवश्यकता वर्तते तन्मात्राणाम् साहाय्येन एव स्थूलक्षेत्रे च वस्तूनि प्रतीयन्ते चित्तम् स्थूलायाः सृष्टेः रूपम् गृह्णाति यतः तन्मात्राणि आवश्यकानि स्थूलविषयान् ज्ञातुम् अतः चित्तस्य तन्मात्राणि भवेयुः तेन चित्तेन तन्मात्राणि अपि निर्मि निर्मातव्यानि भवन्ति यतः अन्ये अन्यः सोत्र नास्ति यस्मात् चितः तानि तन्मात्राणि प्राप्तुं शक्नोति एवं चितः क्रमेण स्वं पञ्चभूतानां तन्मात्राणां च रूपेण प्रकटीकरोति येन जगत निर्मितम् अस्ति अस्तु भगिनी आरम्भतः द्रष्टुं शक्नो आमामां भगिनी प्रदर्शयामि एकं कुत्र अस्ति मुद्रणदोषः इति उक्तवती तुलनां द्वितीयपङ्क्ति दु, परन्तु बुद्धितत्व वयं दृष्टवन्तः इदानीं भवती उक्तवती सृष्टिचक्र द्वादश पर्यन्त षट् पर्यन्तमिति यत् सूक्ष्म सूक्ष्मतमम् अस्ति तत् निर्गुणब्रह्म यत् अस्ति तत्र अस्ति तदानीं द्वादश तत्र भूमा मन तस्य अहं महतत्त्वम् इत्यस्य सृष्टिः भवति कथम् इति भवति वयं दृष्टवन्तः कल्पना आगच्छति मनसि तत्र अनेन इति भवति त विस्तृत करोमि करोमि तस्य ब्रह्मस्य मनम् इति कल्पना आगच्छति प्रथमं यत् अस्ति सतोगुणस्य एव प्रभावः प्रकृतेः प्रभावः यदि पुरुषं प्रति भवति तदी पुरुष गुणान्वित् भवति यत् यावत्पर्यन्तं प्रकृतिप्रभावं प्रभावं सुष्मा, न करोति पुरुषं प्रति तत् तावत्पर्यन्तं पुरुष सूक्ष्म सूक्ष्मतमम् इति तिष्ठति यदि सतोगुणस्य प्रभावेन तत्र भूमामनस्य मैण्ड् वयं ते वदामः महत्तत्त्वं तत् आगच्छति तत्र भावः किमस्ति अहम् अस्मि इति भाव एव आगच्छति तदनन्तरं यदि रजोगुणप्रकृतेः रजोगुणस्य प्रभाव महत्तत्वे आगच्छति तत्र महत्तत्त्वं यत् इदानीम् अपि सूक्ष्म अस्ति तस्मात् किञ्चित् स्थूल स्थूलं भवति सूक्ष्मतमम् इति तस्य न्यूना न्यूनं भवति इति वयं वदामः इति अहं तत्वम् आगच्छति यदि अहं तत्वम् आगच्छति तत्र यदि अहं तत्व आगच्छति तत्र भावः अस्ति अहं करोमि अहम् अस्मि इति वा वयं कर्ताभाव इति आगच्छति वा डुवर् इति इत वयं वदामः इति भावः आगच्छति मनसि तदनन्तरं यदि तमोगुणस्य प्रभावः प्रकृते तमोगुणस्य प्रभावः अहं तत्त्व उपरि आगच्छति तदानीं चित्तस्य निर्माणं भवति चित्त इति निर्मी नि, निर्मीयते यदि चित्तं निम् निर्मीयते तत् इति भवति महत्तत्व अपेक्षा चित्तम् इति स्थूलतमस्ति चित्तस्य अपेक्षा महत्तत्वम् सूक्ष्मतमम् मध्ये अहं तत्त्वम् आगच्छति इति अपि वयं जानीमः सतोगुण रजोगुण तमोगुणस्य प्रकृतेः प्रभावः अस्ति तत् अस्ति इदानीं यदि चित्त उपरि अस्ति तस्मात् इस स्थोपि स्थूलतमं भूतानि आगच्छन्ति निर्मीयन्ते वा तस्य सृजा सृजनं भवति इति वयं वदामः इति यत् चित्तः भूतानि परिमाणते यथा भवति गतसप्ताहे उक्तवती तु तस्य भूतानि अपि तेषामपि सूक्ष्म सूक्ष्मतमं तदनन्तरम् अस्थूलतम् इति आगच्छति प्रथमं यद्भूतं सृजति इति अस्ति व्योमतत्व आकाशतत्व तद् वायवी अपि वयं वदामः तस्मात् यदि आगच्छति इति अस्ति वायुतत्वमरुतत्त्वम् अपि वदामः तस्मात् भवति चेत् तेजस्तत्त्वं तत् अस्ति अग्नितत्त्वम् इति प्रकाशयुक्तम् अग्नेः इति जलतत्त्वस्य सृजनं भवति तदनन्तरं तत् तत् द्रवति कारणी वयं जानीमः जलद्रवति तस्मात् आगच्छति पृथ्वीतत्त्व वा शिथि तत्त्व इति तद् तो पृथ्वीतत्त्वम् इति अस्ति स्थूलतमं वायुतत्त्वं व्योमतत्त्वं यदस्ति आकाशतत्त्वम् इति वयं द्रष्टुं न शक्नुमः किन्तु वयं जानीमः स्पेस् इति अस्ति आकाशतत्त्वम् अस्ति सूक्ष्मतमम् अस्ति तत् पूर्वं पठितवन्तः ये तन्मात्रा सन्ति प्रत्येक यद्भूत भूतमस्ति तस्मात् एकम् एकं गुण इत्यस्य असाधारणधर्मः इति अस्ति आकाशस्य अका असाधारणधर्म इति यदि वयं वदामः तर्हि शब्द गृहीतं भवति आका आकाशेन सो इति तस्य वयम् अत्र तन्मात्रा वदामः यत् गृह्णाति तो आकाशस्य तन्मात्रा अस्ति केवलं शब्दतत्त्वं सो यदि षण्मात्रंत्रम् तन्मात्रं सो इति यत् तन्मात्रं शब्दम् अस्ति सो इदानीं वयं वदामः अस्ति कारणकी इति सूक्ष्मं वदामः किन्तु चित्तस्य अपेक्षया इति स्थूलं सूलत, स्थूलतर अस्ति आकाष्ठणि तस्मात् शब्द मात्रम् अपि ग्रहीतं भवति तस्मात् तदनन्तरं यत् अस्ति वायुतत्त्वम् अस्ति वायुत तत्त्व अस्ति तस्मात् वयं स्पर्शं वयं जानीमः अपि शब्दम् शब्दस्पर्श तन्मात्रद्वयं वायुतत्त्व गृह्णाति तदनन्तरं यदस्ति तेजस् वयं द्रष्टुं शक्नुमः तेजस् अस्मात् अस्माकं चक्षु चक्षुषाभ्यां इति अस्ति तस्मात् इति त्री त्रीणि चन् मात्राणि भवति तत्र अस्ति शब्द स्पर्श अपि नून् आगच्छति तेजः इति रूप इति अस्ति रूपम् आगच्छति तदनन्तरमस्ति द्रव द्रवं यज्जलम् अस्ति सो जलम् इति तस्य अस्ति रसम् आगति जलेन सो इति चतुर्थ तन्मात्रा तु जले चत्वारि तन्मात्राणि भवन्ति शब्द शब्द शब्दस्पर्श रूपम् अपि रसं अन्तिमं यत् क्षितितत्त्व अस्ति तत्र पञ्चतन्मात्राणि गृह्णाति क्षितितत्त्व पञ्चमम् आगच्छति गन्धम् इति आगच्छति सो इति वयं जानीमः यस्य यत्त यत् तत्त्वस्य अधिकानि तन्मात्राणि यत् तत्त्व गृह्णाति तत्तत्व भवति तमम् तत्र न्यूनी न्यूनम् तन्मात्रा मात्राणि गृह्णाति तत्तत्त्व भवति तो इति सूक्ष्मतमम् भवति चित्त कोऽपि तन्मात्राणि न गृह्णाति किन्तु आकाशः अस्ति तस्मात् सूक्ष्म न्यूनसूक्ष्मम् इति भवति तत्र इति भवति सूक्ष्मतर भवति चित्तस्य अपेक्षा तु इति भवति तत्र शब्दस्य एकम् एव तन्मात्रा गृह्णाति वायु आकाश तत्र इति अस्ति साधु किन्तु चित्तं कोऽपि न गृह्णाति किन्तु चित्तं कथं जगत् यथा वयं दृष्टवन्तः राम स्वस्य सा, चित् चित्ते चादिनी चोक् इति तस्य द्रष्टुं शक्नोति तु कथं स्थूलतमं करोति तो, तो चित्ते अपि अनेन प्रभावेन अपि तन्मात्राणि आगच्छन्ति पञ्च कञ्चित् इति अहम् अन्तिमम् इति कथमागच्छति तत् स्पष्टं नास्ति मनसि किं स्पष्टं नास्ति भगिनि चित्तेन अपि तन्मात्रा निर्मि निर्मातव्यानि भवन्ति ये तेषां अन्यस्रोत्र नास्ति किन्तु तत् ये पञ्चभूतानि सन्ति तेषु एव आगच्छन्ति सा तु तन्मात्राणि चित्ते चित्त आकारं करोति सा तु चित्ते चित्ते तादृशतन्मात्राणि न संति तर्हि आकाशे वायव कथम् आगच्छन्ति इत्युक्ते कारणे भवेत् खलु अस्तु हा चित्ते चित्ते तादृशतन्मात्राणि तन्मात्राणि सन्ति इत्युक्ते यदा यदा अहं पुस्तकं पश्यामि तदानीं तत्र चित्तं वस्तुनः वस्तुतः यद यद् वस्तु अस्ति तस्मात् तन्मात्राणि गृह्णाति खलु चित्तं तन्मात्राणि गृह्णाति तस्य आकारं प्राप्नोति इति तत्र वयम् अस्माकम् अनुभवः एवमस्ति तथा तत्र आकाशे तन्मात्राणि कुतः आगच्छन्ति इति चेत् चित्ते तादृशतन्मात्राणि अव्यक्तरूपेण सन्ति अस्तु अव्यक्तरूपेण अस्तु हा यतो हि तस्य ता तादृश तन्मात्राणाम् अन्यः अन्यः स्रोतः नास्ति यस्मात् चित्ता इत्युक्ते आकाशे आकाशे वा वायो तन्मात्राणि कथं वायामि स्तोत्र इति पुरुषमेव अस्ति यथा वयं दृष्टवन्तः महत्तत्त्वम् अहं तत्त्वं तदनन्तरं चित्त चित्र एव व्योमतत्त्ववायुतत्व इति भवत् इति भवति अस्तु अस्तु सर्वे तत्त्वानि अपि पुरुष पुरुषः एव पुरुषमेव अस्ति अस्तु पुरुषः पुरुषस्य एव भिन्नभिन्न भिन्न आकाररूपाणि भवन्ति इदानीं ग्रेडिङ्ग् डिफ़्रेण्ट् भवति इदं अस्तु परन्तु तत्र भिन्नरूपेण दृश्यते इति कृत्वा पुरुषः नास्ति इति वयं चिन्तयामः परन्तु वस्तुतः पुरुषः एव अस्ति आमां हा स्थूली स्थूलीकरणमेव अत्र उक्तमस्ति अत्र एकं स्पष्टीकर्तुमिच्छामि अत्र तन्मात्रम् इति तत्र तन्मात्रम् इति वस्तुतः तन्मातृमातृशब्दः तन्मात्रम् तन्मात्राणि अनेन पुरुष अनादि वयं वक्तुं शक्नुमः अपि अखण्डम् अपि वक्तुं शक्नुमः कारणकी सर्वं पुरुषैव अस्ति तत् खण्डं नास्ति कुत्रापि तद् आमां सत्यं पुरुषः अनादिसत्ता अस्ति सर्वदा अस्ति सर्वदा आसीत् सर्वदा भविष्यति अनन्तरं तदेव जगत् निर्मितं वर्तते तस्यैव परिवर्तितरूपम् अस्ति सर्वम् आमाम् आम् एतत् सर्वमपि इयं सृष्टिः इदं जगत् सर्वमपि परमपुरुषस्य चित्ते चित्ते एव सर्वं जायमानमस्ति इयं प्रक्रिया बहु रुचिकरा वर्तते बहु रुचिकरा वर्तते इत्युक्ते क्रमेण सृष्टेः प्रगतिः कथं भवति इति इत्युक्ते एतत् सर्वं क्रमेण भवति इत्युक्ते झटिति सर्वं भवति इति नास्ति तत्र परमपुरुषस्य चित्ते स्थितिप्रक्रिया क्रमेण क्रमेण जायते क्रमेण प्रथमतया तत्र परमपुरुषस्य मनः तदनन्तरं पञ्चभूतानि तदनन्तरं जीवाः इति क्रमेण तत्र प्रथमतया स्थूलीकरणं भवति यदा पुरुषः स्थूलीभूतः भवति तदानीं पुरुषस्य मनः निर्मितं भवति तत्र त्रयः त्रयः निर्मिताः भवन्ति भूममनः त्रयः अंशाः क्रमेण निर्मिताः भवन्ति तदनन्तरं चित्तस्य परिणा चित्तस्य परिवर्तनं भवति येन पञ्चभूतानि निर्मितानि भवन्ति तत्रापि क्रमेण स्थूलीभवनं भवति तत्र बुद्धितत् तत्र महत्तत्वस्य स्तरे तत्त्वगुणस्य प्राधान्यं वर्तते तदनन्तरं रजोगुणस्य स्तरे तत्र न अहं रजोगुणस्य प्राधान्यं वर्तते चित्तस्य स्तरे तमोगुणस्य प्राधान्यं वर्तते ततः चित्तात् यदा पञ्चभूतानि निर्मितानि भवन्ति षड्वादनपर्यन्तं तत्र पुनः तमोगुणस्य एव प्राधान्यं भवति तर्हि तमोगुणस्य प्राधान्येन इतोपि स्थूलीकरणम् इतोपि स्थूलीकरणं जायते एन क्रमेण आकाशतत्वं मरुतत्वम् अग्नितत्त्वं जलतत्त्वं स्थितितत्त्वम् आयाति एतानि पञ्चभूतानि तर्हि एतानि सर्वाणि अपि चित्तस्य उपरि प्रव तत्व तमोगुणस्य प्रभावेन एतानि निर्मितानि सन्ति एतेषां पञ्चभूतानां पृथक्तया अस्तित्वम् अस्ति इति नास्ति वस्तुतः चित्तमेव तादृशरूपं एतपञ्चभूतानां रूपं चित्तमेव गृह्णाति यतोहि अन्यत् किमपि नास्ति एतादृशरूप रूपस्य ग्रहणार्थं तर्हि चित्तमेव अस्ति तद् चित्तमेव पञ्चभूतानां रूपाणि चित्तमेव पञ्चभूतानां रूपं गृह्णाति तद् सर्वं तु भूमौ मनसि एव जायते सर्वं तु चित्तस्य उपरि एव जायते कथं चित्तस्य उपरि जायते इति चेत् अहं तत्त्वस्य निर्देशानुसारम् अहं तत्त्वस्य निर्देशानुसारं यतोहि यदा तमोगुणस्य प्रभावः चित्ते अधिकं जायते यदा तमोगुणस्य प्रभावः चित्तस्य उपरि अधिकम् अधिकं भवति तदानीम् अहं तत्त्वस्य निर्देशानुसारं चित्तम् एव पञ्चभूतानां रूपं गृह्णाति तर्हि प्रथमतया सत्त्वगुण सत्त्वगुणः तत्त्वगुणेन स्थूलीकरणं जायते तत्तु निर्गुणपुरुषस्य उपरि यदा महत्तत्त्वस्य निर्माणं भवति तदनन्तरं रजोगुणस्य रजोगुणः तदनन्तरं तमोगुणः ततः अग्रे तमोगुणः एव तमोगुणस्य प्राधान्यं भवति येन चित्तस्य निर्माणं भवति अनन्तरं क्रमेण चित्तात् पञ्चभूतानां निर्माणं भवति तर्हि अत्र यदा वयं प पश्यामः पुरुषः बहु सूक्ष्मः वर्तते तदनन्तरं यदा तत्र मनः आयाति मनः मनः पुरुषस्य इव सूक्ष्मता नास्ति परन्तु मनः अपि सूक्ष्ममेव वर्तते मनः अपि सूक्ष्ममेव वर्तते तत्र महत्तत्वं महत्तत्वं सूक्ष्मं वर्तते पुरुषस्य अपेक्षया स्थूलं वर्तते परन्तु सूक्ष्मः एव महत्तस्य अपेक्षया अहं तत्त्वं किञ्चित् स्थूलं वर्तते आमतत्वस्य अपेक्षया चित्तम् इतोपि स्थूलं वर्तते चित्तस्य अपेक्षया पञ्चभूतानि इतोपि स्थूलानि व वर्तते इति स्थूलानि वर्तन्ते तर्हि इति एवं रीत्या क्रमेण स्थूलीकरणं जायमानम् अस्ति क्रमेण जायमानमस्ति तर्हि तत् तन्मात्रा इत्युक्ते तत् मात्रा तत् मात्रा इत्युक्ते स्मालेस्ट् एसेन्स् द स्मालेस्ट् एसेन्स् आफ़् दट् इत्युक्ते यदा वयं शब्द तन्मात्रम् इति वयं वदामः there it is the smallest essence of a particular sound whatever the sound may be which conveys the essence of that sound the essence iti pedhatra vastunah yaha tarangah yaha tarangah ayati tadeva tanmatram iti vaiwadamah tarhi pustakat yadi vai pustakam pashyamaha pustakat yaha tarangah ayati taha tarangah rupatanmatram iti vaiwadamaha shabda yaha tarangah saha shabda tanmatram iti evam ritya प्रत्येकस्मिन् भूते तन्मात्राणि सन्ति वायोः एता भगिनी सम्यक्तया उक्तवती आकाशे केवलं शब्दतन्मात्रमेव भवति तत्र आकाशस्य दर्शनं न शक्यते स्पर्शनं न शक्यते तस्य रसास्वादः रसस्वादः न भवति एवं रीत्या आकाशे केवलं शब्दतन्मात्रं भवति यदा वायौ वयं पश्यामः तत्र इतोपि एकः अधिक अधिकं तन्मात्रं भवति स्पर्शतन्मात्रमपि भवति तदनन्तरं अग्नितन्मात्रं uh, वयं पश्यामः चेत् तत्र इतोपि अधिकं रूपतन्मात्रमपि अस्ति तदनन्तरं जलतन्मात्रं वयं पश्यामः चेत् तत्र इतोपि अधिकं रसतन्मात्रमपि अस्ति रसतन्मात्रं स्पर्शतन्मात्रं शब्दतन्मात्रं तदनन्तरं क्षितितत्त्वं वयं पश्यामः चेत् तत्र इतोपि गन्धतन्मात्रमपि वर्तते इति वयं पश्यामः चेत् तत्र सर्वेषु भूतेषु क्षितितत्त्वमेव अत्यन्तं स्थूलतमं वर्तते तर्हि इत्युक्ते एवं रीत्या तत्र स्थूलीकरणं जायते इति वयं वक्तुं शक्नुमः पुरुषः यः सूक्ष्मः आसीत् पुरुषे तु तन्मात्राणि न सन्ति पुरुषे तन्मात्राणि न सन्ति तर्हि पुरुषस्य पुरुषः अत्यन्तं सूक्ष्मः वर्तते तन्मात्राणि न सन्ति इति कृत्वा तत्र पुरुषस्य दर्शनं न शक्यते पुरुषे तन्मात्राणां गमनं नास्ति परन्तु पञ्चभूतेषु तन्मात्राणि सन्ति इति अत्र भेदः अस्ति मनसि अपि तन्मात्राणि न सन्ति तर्हि तत्र यदा वयं पश्यामः महत्तत्त्वे अपि च अहं तत्त्वे मनः अपि अत्यन्तं सूक्ष्मः सूक्ष्मः सूक्ष्मं वस्तु अस्ति तस्यापि दर्शनं न शक्यते यदि वयम् अन्तः अन्तर्मुखी भवामः यदि वयम् अन्तर्मुखी बह भवामः तदानीं तत्र किं भवति इति चेत् तत्र भावनाद्वारा भावनाद्वारा पुरुषस्य साक्षात्कारः शक्यते साधनाद्वारा पुरुषस्य साक्षात्कारः शक्यते पुरुषे तन्मात्राणि न सन्ति इति कृत्वा पुरुषस्य साक्षात्कारः तन्मात्राद्वारा पुरुषस्य साक्षात्कारः न शक्यते वयं द्रष्टुं न शक्नुमः इन्द्रैः पुरुषस्य ज्ञानं न भवति यदा वयम् अन्तर्मुखी भवामः बहिर्मुखी न अन्तर्मुखी भवामः यदा अस्माकं मनः अन्तः गच्छति तदानीं तत्र भावनाद्वारा पुरुषस्य साक्षात्कारः भवति परन्तु बहिः यद्वस्तु अस्ति तस्य ग्रहणार्थं तन्मात्राणाम् अपेक्षा वर्तते तन्मात्राणि सन्ति चेदेव बहिः यद्वस्तु अस्ति <laughs> तस्य साक्षात्कारः तरही, भवति अस्तु इदानीं किञ्चित् अग्रे गच्छामः तर्हि अत्र किं सरिताभगिनी पठितुमिच्छति वा वयं व्योमेन व्योमेन आकाशतत्वेन वा आरभामहे ग्रहादीनां सम्भावितवातावरणात् परं यत् रिक्तम् अथवा शून्यतत्वं वर्तते तत् व्योमः वा आकाशतत्वम् अस्ति एतत् रिक्तं शून्यतां सूचयति तथापि वयम् आकाशतत्वं स्थूलम् इति वदामः तत् यतः शब्दतन्त्रं ध्वनिः तस्मिन् वर्तते वैज्ञानिकाः तत् ईश्वर इति कथयन्ति वैज्ञानिकाः तत् ईथर् इति कथयन्ति अस्य रिक्तस्य अथवा ईथर् इत्यस्य रूपं वा आकारः न अस्ति अस्य भारः अपि नास्ति न ना, किञ्चित् वर्तते अस्मिन् अत एव तत् रिक्तम् अथवा शून्यतत्वम् इति वदामः परन्तु शून्यत्वम् इति वदामः परन्तु शब्दः तेन माध्यमेन गन्तुं शक्नोति शब्दतरङ्गाणां सञ्चार क्षम्यतां भगिनी किञ्चित् न पठितुं शितुं शक्नोति वा एव। <TAK> -एव> न किञ्चित् वर्तते तस्मिन् अत एव तत् रिक्तम् अथवा शून्यत्वम् इति वदामः परन्तु शब्दः तेन माध्यमेन गन्तुं शक्नोति शब्दतरङ्गाणां सञ्चर सञ्चरणार्थं माध्यमस्य अभावे तेषां निर्माणम् अशक्यम् अत एव वयं रिक्तं स्थूलम् इति वदामः शब्दतन्मात्राणाम् उपस्थित्या तत् आकाशतत्त्वं स्थूलं भवति किन्तु एतत् स्थूलक्षेत्रे सूक्ष्मतमं यतः तस्य एक एव तन्मात्रम् अस्ति शब्दतन्मात्रम् अतः अतः अस्यां सृष्टौ यत् प्रथमं निर्मितम् आसीत् तत् शब्दतन्मात्रम् आकाश तत्त्वञ्च <laughs> भगिनी पठितुं शक्नोति वा अन्यकोपि वा ओके okay. अन्यकोपि अस्तु अस्तु अस्तु समये अस्तु नास्ति चिन्ता अस्तु तर्हि विजयभगिनी स्वीकरोति वा आश्वर, आश्वर महोदय भवत्याः ध्वनिः श्रूयते एव खलु मम ध्वनिः श्रूयते किम् इदानीं पठितवती खलु चरितपरितः अस्तु ध्वनिः ध्वनिः न ध्वनिः सम्यक् अस्ति परन्तु भगिन्याः कण्ठे अस्ति पठतु भवती पठतु वयं व्योमेन वा आकाशत्वेन आकाशतत्वेन वा आरम्भमहे ग्रहादीनां सम्भावितवातावरणात् परं यत् रिक्तम् अथवा न श्रूयते भगिनि रिक्तम् अथवा शून्यत्वं वर्तते तत् व्योमः वा आकाशतत्वम् अस्ति एतत् रिक्तं शून्यतां सूचयति तदापि वयम् आकाशतत्त्वम् आकाशतत्त्वं स्थूलमिति वदामः यतः शब्दतन्त्रं ध्वनिः तस्मिन् वर्तते वैज्ञानिकाः तत् ईतर इति कथ्यन्ते अस्य रिक्तस्य अथवा ईतर इत्यस्य रूपं वा आकारः वा नास्ति अस्य भारः नास्ति न ना कश्चित् वर्तते तस्मिन् अत एव तत् रिक्तम् अथवा शून्यत्वम् इति वदामः परन्तु शब्दः तेन माध्यमेन गन्तुं शक्नोति शब्दतरङ्गाणां सञ्चरणार्थं माध्यमस्य अभावे तेषां निर्माणं अशक्यम् अत एव वयं रिक्तं स्थूलम् इति वदामः शब्दतन्मात्राणाम् उपस्थित्या तत् आकाशतत्त्वं स्थूलं भवति किन्तु एतत् स्थूलक्षेत्रे सूक्ष्म सूक्ष्मतमं यतः तस्य एकः एव तन्मात्रम् अस्ति शब्दतन्मात्रम् अतः अस्यां सृष्टौ यत् प्रथमं निर्मितम् आसीत् तत् शब्दतन्मात्रम् आकाशतत्त्वस्य तत्वं च इति भवति अत्र प्रत्येकं पञ्चभूतानि पृथक् पृथक्तया तन्मात्रं भवति इति आकाशतत्त्वं शब्दः इति अनन्तरम् अत्र अग्नितत्त्वम् इति अस्ति आकारमपि अस्ति तदेव अत्र इदानीं वयं व्योमेन वा आकाशतत्वेन आकाशतत्त्वेन वा आरम्भे महे इदानीम् अत्र आकाशतत्वं किम् इति अस्ति इति गृहादीनां सम्भावित सम्भावितवातावरणात् परं यत् रिक्तम् अथवा शून्यत्वं वर्तते तत् व्योमः वा अस्ति अत्र प्रथमम् अत्र वयं किं गृहीतुं शक्नुमः चेत् अत्र रिक्तम् किमपि नास्ति एव शून्यत्वम् अत्र वर्तते व्योमः वा आकाशतत्वम् अस्ति इति परन्तु एतत् रिक्तं शून्यतां सूचयति एव किमपि अत्र द्रष्टुं न शक्यते एव तदापि वयम् आकाशतत्त्वं स्थूलम् इति वदामः किमर्थम् अत्र आकाशतत्त्वं स्थूलम् इति वदामः चेत् अत्र शब्दतन्त्रं ध्वनिः तस्मिन् वर्तते नासा अपि अत्र उक्तवन्तः ओम् इति शब्दम् आगच्छति इति अत्र आकाशतत्त्वं शब्दतन्त्रं ध्वनिः तस्मिन् वर्तते इति अतः तत्र स्थूलम् इति वदामः वैज्ञानिकाः तत् वीतर इति कथयन्ति अन्यनाम अत्र सैण्टिस्ट् वैज्ञानिकाः किम् उक्तवन्तः ईतर इति तस्य नाम तस्य नाम स्वीकृतवन्तः कथयन्ति च अस्य रिक्तस्य अथवा ईतर इत्यस्य रूपं वा आकारः वा नास्ति एव अत्र ईतर् इति उक्तवन्तः परन्तु अत्र आकारं स्थूल स्थूलरूपेण अत्र नास्ति एव अस्य वारः नास्ति वारः अपि शक्यते एव न किञ्चित् वर्तते तस्मिन् अतः एव तत् रिक्तम् अथवा शून्यत्वम् इति वदामः आकारः नास्ति भारः अपि नास्ति तस्य नाम तु विज्ञानिकाः ईतर इति स्वीकृतवन्तः तत्र रिक्तम् अथवा शून्यत्वम् इति वयं वदामः किमर्थं चेत् अत्र किमपि द्रष्टुं न शक्यते एव परन्तु शब्दः तेन माध्यमेन गन्तुं शक्नोति अत्र स्थूलरूपेण अत्र शब्दं तेन माध्यमेन गन्तुं शक्नोति एव शब्दतरङ्गाणाम् अत्र वेब्स् अस्ति शब्द तरङ्गाणां सञ्चरणार्थं माध्यम माध्यं माध्यमस्य अभावे तेषां निर्माणम् अशक्यम् अत्र शब्दतरङ्गाणां सञ्चारणार्थम् अत्र माध्यमस्य अभावः अस्ति अतः तत्र किम् अस्ति इति अत्र निर्माणम् अशक्यमेव अतः एव वयं रिक्तं स्थूलम् इति वदामः अशक्यम् आम् आम् आम् महोदय मनसि एतदेव चिन्तितं परन्तु वार्ताम् एतत् आगच्छतु अत एव वयं रिक्तं स्थूलम् इति वदामः अतः एव किमपि नास्ति आकारः नास्ति अनन्तरम् अत्र भारः अपि शब्दमेव वयं शृणुमः एतत् चिन्तयित्वा सर्वाणि कार्याणि चिन्तयित्वा एव अत्र रिक्तं स्थूलमिति वदामः शब्दतन्मात्राणाम् उपस्थित्या तत् आकाशतत्त्वं स्थूलं भवति शब्द तन्मात्रमस्ति अतः वयम् स्थूलं भवति इति वक्तुं शक्नुमः किन्तु एतत् स्थूलक्षेत्रे सूक्ष्मतमं यतः तस्य एकः एव तन्मात्रमस्ति शब्दतन्मात्रमस्ति अतः तत्र स्थूलक्षेत्रे सूक्ष्णुतमम् अस्ति एव द्रष्टुं न अतः अस्यां सृष्टौ यत् प्रथमं निर्मितम् आसीत् एतदेव आकाशः यत् प्रथमं निर्मितम् आसीत् तत् शब्दतन्मात्रम् आकाशतत्त्वं च इति वक्तुं शक्नुमः तावदेव महोदये समीचीनं भगिनी समीचीनं समीक्षा उक्तवती इत्युक्ते तत्र तमोगुणस्य प्रभावः यदा जायमानः अस्ति चित्तस्य उपरि तदानीं तत्र चित्तात् तत्र प्रथमतया तत्र आकाशतत्त्वस्य निर्माणं भवति तमोगुणस्य प्रभावः चित्तस्य उपरि अधिकः अधिकः यदा जायते तत्र तदानीं स्थूलीकरणस्य आरम्भः जायते तादृशस्थूलीकरणेन आकाशः निर्मितः भवति इत्युक्ते तत्र आकाशे किमपि नास्ति आकाशे किमपि नास्ति तर्हि तत्र केवलं तत्र मात्रस्य मात्र एव गतिः भवति तत्र शब्द शब्दतन्मात्रस्य गतिः भवति अथवा ग्रहणं भवति तेन वयं शब्दं शृण्मः आकाशे इति अत्र उक्तमस्ति तर्हि इदानीं किञ्चित् अग्रे गच्छामः अग्रे शान्ताभगिनी पठति वा पठितुमिच्छति वा श्रान्ताभगिनी प्रियाभगिनी प्रश्नः अस्ति किमपि वदन्ति अस्ति वा हरि ओम् भगिनि केन् यु ह्यौ हा हा वदतु अद्य अहमपि पठितुं शक्नोमि अच्च अच ओके ओके तर्हि अत्र शान्ताभगिनी पठति वा अस्ति वा आकाशतत्त्वस्य रूपं स्वीकृत्य चित्तं स्वं वायुरूपेण प्रकटयति वायुः आकाशात् स्थूलतरम् अस्ति यतः अस्मिन् वयं द्वयोः तन्मात्रयोः उपस्थितं प्राप्नुमः वायोः मरुतः वा शब्दतन्मात्रं तथा स्पर्शतन्मात्रम् अस्ति वयं परस्परं वार्तालापं श्रोतुं न यदि वायौ शब्दतन्मात्रं न आसीत् साधारणतया शब्दतरंगाः वायुना एकस्मात् स्थानात् अन्यस्मिन् स्थाने वहन्ति अतः शब्दतन्मात्रस्य उपस्थितिः अत्यावश्यक अत्यावश्यकी भवति वयं केवलं स्पर्शेन वायोः सन्निधिः अनुभवामः अतः स्पर्शतन्मात्रम् अपि एवं वयं वायौ वायवीयभूते द्वे तन्मात्रे प्राप्नुमः परन्तु आकाशे अथवा आकाशीभूते एकमेव तन्मात्रं भवति वायुः वायुभूतम् अतः आकाशात् स्थूलतरम् अस्ति वायुः आकाशस्य अनन्तरम् अस्तित्वं प्राप्नोति वयं पूर्वं पश्यामः आकाशतत्त्वं स्थूलमस्ति व्यापकमस्ति तस्मिन् शब्दतन्मासरम् अस्ति इति तत् रूपं कथं स्वीकरोति स्वीकरोति इति वायुरूपेण एव वा प्रकटयति वायुः आकाशात् एव स्थूलतरं भवति अतः वयं कुतः वदामि चेत् यदि वयं किमपि शब्दं कुर्मः तत् शब्दं वायुमार्गेण एव वायुसहायेन एव मम एकस्मिन् समीपे आगच्छति वयं शृण्मः तत् शब्द त्रम वायु अस्ती वी तथा वायु अस्त की वीम स्पर्शत यथा यहाु मम शरी स्था मैं सुखम आपनुमे अतः वा शब्दतन्मात्र द्वे सन्ति अतः वायुः आकाशतत्पररूपस्य भगि स्थूलतरं प्राप्तवती यदि वायोः शब्दतन्मात्रम् उपस्थितिः नास्ति तथा वयं महा कि शुणु परस्पर वार्तापय वो ते अतः वाठा चे आकाशे एक तन्मात्रः अस्ति शब्दतन्मात्रं वायोः द्वितन्मात्रं शब्दतन्मात्रम् एवं स्पर्शतन्मात्रं भवन्ति अतः वायु वायुभूतम् आकाशात् अस्ति इति जानीमः समीचीनं भगिनी समीचीनं उक्तवती इति एव विषयः अस्ति अत्र तत्र जगतः निर्माणं जायमानम् अस्ति चित्ते चित्त चित्तमेव एतादृशपञ्चभूतानाम् आकारं गृह्णाति चित्तमेव जगतः रूपं गृह्णाति तर्हि तत्र चित्ते तत्र किम् आयाति इति चेत् तत्र आकाशतत्त्वं प्रथमतया आयाति आकाशतत्वे केवलं शब्दतन्मात्रमेव अस्ति तदनन्तरम् इतोपि चित्तं चित्तस्य स्थूलीकरणं यदा जायते तदानीं चित्तं तत्र वायु वायु वायोः वायुभूतस्य रूपं गृह्णाति वायुभूतम् आकाशात् इतोपि स्थूलं वर्तते यतोहि तस्मिन् तन्मात्रद्वयं वर्तते शब्दतन्मात्रम् अपि च स्पर्शतन्मात्रम् इति कृत्वा वायुभूतम् आकाशात् स्थूलतरम् अस्ति तर्हि अत्र वयं जानीमः शब्दतरङ्गाः एकस्मात् स्थलात् अन्यस्मिन् स्थले कथं गच्छन्ति इति चेत् वायोः सहायेन एन सहायेन एव वायुः नास्ति चेत् तत्र शब्दस्य श्रवणम् अपि न शक्यते शब्दः तु आकाशत आकाशतत्त्वे अस्ति यदि वायुतत्वे अपि शब्दः अस्ति इति तदानीं तत्र यदि शब्दतन्मात्रं वायौ नास्ति यदि वायौ नास्ति तदानीं तत्र शब्दस्य श्रवणं न शक्यते एकस्मात् स्थलात् अन्यस्मिन् स्थले शब्दस्य श्रवणं न शक्यते तर्हि तत्र वायौ तन्मात्रद्वयं वर्तते इति कृत्वा तदितोपि स्थूलतरं वर्तते आकाशतत्त्वस्य अपेक्षया अत्र वयं द्रष्टुं शक्नुमः चित्तम् एव क्रमेण स्थूलीकरणस्य प्रभावेन भिन्नभिन्नरूपं गृह्णाति आकाशतत्त्वरूपेण वायुतत्त्वरूपेण तर्हि इदानीं किञ्चित् अग्रे अन्तिमपरिच्छेदम् इदानीं वयं पठामः प्रियभगिनी पठति वा अटति भा, वा भगिनि वायुतत्त्वस्य अनन्तरम् न श्रूयते ओ एवं वा अस्तु तर्हि ओके okay. तर्हि सर्ला भगिनी पठितो समापयत् वायुतत्त्वस्य अनन्तरं स्वम् तेजस्तत्त्वरूपेण रूप, प्रकाशभूतेन व्यक्तीकरोति अग्निः द्रष्टुम् शक्यते अतः च तस्य आकारः रूपम् वा अस्ति इति वक्तुम् शक्यते अग्नौ रूपतन्मात्रम् भावनातः बिम्बम् वा रूपम् वा उत्पाद्यते तस्मात् स्पन्दनम् अस्ति अन्यथा वयम् अग्निः द्रष्टुम् न शक्नुमः स्पर्शेण अपि अग्निः अनुभूयते अतः तस्य स्पर्श तन्त्रं शब्दतन्मात्रम् च उभयमपि वर्तते तेजस्तत्त्वे तन्मात्रस्य वर्तते रूपं स्पर्शम् स्पर्शः शब्दः च तेजस्तत्त्वस्य तन्मात्रयम् अस्ति इत्यतः तत् वायुतः स्थूलतरं भवति तेजस्तत्त्वं वायुतत्वस्य अनन्तरं निर्मितम् So, uh, एतावत् वयं दृष्टवन्तः चित्त यदि अस्ति चित्तात् सोऽपि तमोगुणस्य यदि प्रकृतेः प्रभावः अस्ति तत् चित्त तस्य प्रथमम् आकाशस्य निर्माणं भव आकाशस्य निर्म निर्मीयते आकाशात् तदनन्तरं वायुतत्त्वस्य निर्माणं भवति आकाशे केवलं शब्द तन्मात्रा अस्ति वायुतत्त्वे शब्द अपि स्पर्शतन्मात्रा अस्ति इदानीं तेजस् य तन्मात्रा तेजस् रूपेण यदि वायुतत्वस्य चित्तं वायुतत्वस्य अनन्तरं तेजस् रूपेण आगच्छति यदि तेजसरूपेण यदि प्रकटीकरोति चित्तं तत् तदानीं त्रीणि तन्मात्रा आगच्छन्ति नूतन यत् रूपतन्मात्रा आगच्छति रूपतन्मात्रा यत् अस्ति अनेन आकार अपि दृश्यते अग्ने आका, अग्नेः आकार अग्नेः आकारः भवति अपि तस्य बिम्बं वयं द्रष्टुं शक्नुमः इति रूपम् अपि स्पर्शेन वयं उष्ण स्पर्शं इति वा तेजस्य इति अनुभवामः शब्दः अपि वायुः यदि प्रचण्ड प्रचलति तत्र वयं वायोः अपि शब्दं श्रोतुं शक्नुमः अथवा वायोः अपि त्रीणि तन्मात्रा सन्ति इति दत्तमस्ति अत्र सो वायुक्षम्यत वायुः इति तेज सो तेज वायोः अपेक्षा इति स्थूलतरमस्ति अपि वायुः आकाश अपेक्षा स्थूलतरम् अस्ति इति साधु भगिनी आमामा समीचीनं पात्रतन्त्र इति स्पर्शतन्त्र शब्दतन्मात्र द्वया द्वय भिन्नपदानि सन्ति पदे इति तस्य भेदः अस्ति वा किं किं कुत्र अस्ति यथा यथा शब्दतन्त्रं ध्वनि तस्मिन् वर्ति अपि वयं तत् तन्मात्रम् अपि वदामः इति कथं किं तदा न शब्दतन्मात्रमिति एव अस्ति शब्दतन्मात्रमिति एव अस्ति शब्दतन्त्रमिति न शब्दतन्त्रमित्युक्ते ध्वनिः इत्यर्थः अस्तु ओके सामान्यतः तन्त्रं वयम् इति लैक् इन्स्ट्रुमेण्ट् इति वदामः साधु इत्युक्ते यतः न न तत्र शब्दतन्मात्रम् इति भवेत् अत्र मकारः ध्वनिमुद्रणः अस्ति तन्त्रमिति न शब्दतन्मात्रम् अस्तु हा मध्वनि मुद्रणदोषः अस्ति शब्दतन्त्रमिति न शब्दतन्मात्रम् अस्तु अपि तन्मात्रं या वेव् यु केन् से इट् एस् अैक्रोस्कोपिक् फेक्षन् आफ़् अेव् वेव् ओके अस्तु समीचीनम् इति कृत्वा तत्र यथा भगिनी उक्तवती तत्र अग्नितत्वो तत्वे तत्र इतोपि रूपतन्मात्रमपि वर्तते तस्य दर्शनं शक्यते अग्नेः दर्शनं शक्यते इति कृत्वा तत्र रूपतन्मात्रमपि वर्तते आहत्य तस्मिन् तन्मात्रयं वर्तते इति कृत्वा तद् तु वायोः अपेक्षया इतोपि स्थूलकरं वर्तते समीचीनं भगिनी यदा वयं हवन् इति आरती भवति तदानी मन्त्रपुष्पं ते वदन्ति साधु तस्यापि mm. समाना अस्ति स्थूलतरं दे गो फ्राम् स्थूलसूक्ष्मतमं गच्छन्ति मन्त्रपुष्पम् इति Yopam Yopam Pushpam Veda, Veda, Veda, Pushpavan Pajavan Pashuman Bhavati, Bhavati. Evam Ayatanam Ayatanam Then then then from from from the the the the the water, it it it comes like Vayu, came came, Teja, Teja Teja like and and all योपां पुष्पं वेद पुष्पवान् प्रजावान् पशुवान् भवति एवं वेद योपाम् आयतनं वेद आयतनं वाटर् इट् कम्स् द वायु वायु इण्ड वायुन् इोषन् गोन् दिवर्स् okay. okay. अस्तु अस्तु तर्हि अत्र स्थगनं कुर्मः समयः अतीतः कोऽपि प्रश्नः अस्ति वा स्पष्टं जायमानमस्ति खलु स्पष्टता अस्ति खलु ओके ओके तर्हि अत्र स्थगनं कुर्मः धन्यवादः नमस्कारः भगिनी